श्रीमद्भागवत् महापुराणं दशं स्कन्धम् अस्य की अग्रपूजा और शिषुपाल् का उद्धार शिशुकुवाच एवं युधिष्ठिरो राजा जरासन्धवधं विभो कृष्णस्य चानुभावं तं श्रुत्वा प्रीतस्तमब्रवीन् युधिष्ठिर ये सूत्रैलोक्यगुरवः सर्वे लोकमहेश्वराः वहन्ति दुर्लभं लब्ध्वा शिरसैवानुशासनं स भवानरविन्दाक्षोदीनानामीशमालिनां धत्तेऽनुशासनं भूमस्तदन्त्यन्तविडम्बनं न हि कस्याद्वितीयश्च ब्रह्मणा परमात्मनः कर्मभिर्वर्धते तेजोषसते च यथा रवेहम् न वै तेजितभक्तानां ममाहमिति माधव त्वं तवेति च नानाधिपशूनामेव वै कृता शेषोकुवाच इत्युक्त्वा यज्ञे काले वब्रे युक्तान् स ऋत्विजः कृष्णानुमोदितः पार्थो ब्राह्मणान् ब्रह्मवादिनः द्वैपायनो भरद्वाज सुमन्तुर्गौतमोषितः वसिष्ठश्च मनकण्डो मैत्रेयकवशस्त्रितः विश्वामित्रो वामदेव स्मतिर्जयमिनिक्रतुः पैलपराशरे गर्गो वै सम्पायिनि एव च भार्गव आसुरीः वीतिहोत्रो मधुच्छन्दा वीरसेनो कृतव्रणः ओपहूतास्तथा चान्ये द्रोणभिस्म कृपादयः धृतराष्ट्रसहस्रुतो विदुरश्च महामतिः ब्राह्मणा क्षत्रिया वैश्याशुद्रा यज्ञदिक्षवः यत्रेयो सर्वराजानो राज्ञां प्रकृतियो नृप तदस्ते देवयजनं ब्राह्मणा स्वर्णिलाङ्गलैः कृष्ट्वायं तत्र यथाम्नाऽयं दीक्षियाश्च कृते निपम् हैमाकिलोपकरणां वरुणस्य यथा पुरा निद्रादयो लोकपालाभिरिञ्च भव संयुताः सगणासिद्धगन्धर्वा विद्याधरमहोरगाः मुनियो यक्ष रक्षांसि भिन्नरचारणाः राजानश्च समाहूता राजपत्न्यस्य सर्वशः राजसूयं समेयो स्म राज्ञ पाण्डुषु तस्य वै मेनिरे कृष्णभक्तस्य सोपपन्नमविस्मिताः अयाजयन्महाराजं याजका देववरचस राजसूयेन विधिवत् प्राचेत समिवामराः सौतेऽहन्यावनिपालो याजकान् सत्सम्पतीन् अपूजयन्महाभागान् यथावत् सुसमाहितः तदस्याग्र्यार्हणार्थं वै विमृशन्तः शभासर नाध्य गच्छन्नैकान्त्या सह देवस्तदाब्रवीत् अर्हती ह्यच्युतश्रेष्ठं भगवान् सात्वतां पतिः एष वै देवता सर्वादेशकालसनादयः यदात्मकमिदं विश्वं कृतवस्य यदात्मकाः नग्निराहूतयो मन्त्रा साङ्ख्यं योगस्य यत्परः एक एवाद्वितीयो सा वै तद्दात्ममिदं जगत् आत्मनात्मा श्रियसभ्याश्रियत्यवतिहन्त्यजः विविधा निह कर्माणि जनयन् जलवेक्षया ईहते यदियम् सर्वः श्रेयो तस्मात् कृष्णाय महते दीयताम् परमार्हणम् एवम् चेत् सर्वभूतानाम् भवेत् सर्वभूतात्मभूताय कृष्णाय अनन्यदर्शिने देयं शान्ताय पूर्णाय दत्तस्यानन्त्यमिच्छता इत्युक्त्वा स देवो भूतृष्णम् कृष्णानुभावित् तच्छ्रुत्वा तुष्टुभुः सर्वे साधु साध्वीति सत्तमाः श्रुत्वा द्विजेरितं राजा ज्ञात्वा सभासदाम् लमहर्यदं धृशीकेशं प्रीतप्रणयविफलः तत्पादावमनिद्याप शिरसा लोकपावनिः सभार्य सानुजामात्यः सकुटुम्भो व हनन्मुदा